स्मिन् यः समाने रत्नधे जङ्गमन्विन्द्रमनुभोमदासः आगन् नृभूनामिनरत्नधेजमभूत् सोमस्य सुषूतस्य प्रीतिः सुकृत्य यायत्स्व पस्य चेकम् विचक्रचामसम् च दुद्धा च दुर्धासखेऽपि शिक्षेत्यब्रवीत अथीतवाजामृतस्य पन्थाम् गृहम् देवानानुभवः सुहस्ता किम्मयस्विच्चमस येषयङ्काम्येन चतुरोविचक्रा अथा सुध्वंसव न मदायपादर्भवो मधुरः सोम्यस्य सत्याकर्तवितरायुमाना सत्याकर्तचमसन्देहपानम् सच्या हरिधनुतरावतष्टेन्द्रवाः विभवो वाररत्नाः दोपः सुनोत्यभिविद्वाय ससमदाय तस्मै रजिवृभवः सर्वा वीरमादक्षतवृषणो मन्दसामाः प्रातः सुतमा विभो हर्यस्वमाध्यम् दिनम् सबलम् केवलम् ते सिः पिबस्वरत्रिः सखीन्द्रज कृषेषु कृत्या जे देवासो अभवता सुकृत्या दे दे सेनाजिवेदधिनिषेदा न पादसौधन्वना अभव मृदा सह जृतीयम् समानम् रत्नधेयम कृपस्यासु हस्ताः सदृ परिभिक्तम् वजेरत्सं मदेभिरिन्द्रियेभिः पिबध्वम् अनः सो जातो नभि सुल्यो रथस्त्रिचक्रः परिवर्तते रजाः महत्तद्वो देव्यस्य प्रवाचनन्द्यावृभवः पृथिवीम् यच्छ पुष्यत रथ्ये चक्रः सुचेतसो विह्वरम् तम् मनसस्परिद्यया तावानस्य पीतया वो बाचारुभवो वेदयामसि देवेषु विद्वो अभवनसन्तापितरासनाजु प्रापुरजुवाचरथा यदक्षथा एवम् विचक्रचमसम् चतुर्वजम् निश्चर्म नोकामारिणीतधीतिभिः देवेष्वामृतत्वमानससृष्टी वाचारुभवस्तद्वामुख्यम्प्रथमश्रावस्वो वाचश्रुवासोऽयमजीजनन्नराः विद्वदष्टो विदधेषु प्रवाच्योऽयम् देवासोपदासवितर्षणिः स वाज्यर्वासऋषिर्वचस्य यासशूरो अस्थावृतनासु दुष्टराह स राजस्पोषम् स सुवीर्यम् दधेयम् वाजो विभ्वाङ्गृभवो यमावीषुः श्रेष्ठम् वाक्पेषु अधीरायिदर्शतम् स्तोमोहो वाचारुभवस्तञ्जूजुष्टः धीरा सोऽष्ठकवयो विपश्चिदस्तान्वजेना ब्रह्मणा वे एतजासि यूयमस्मभ्यम् धिषणाभ्यस्वरि विद्वाम् सो विश्वानर्यानि भोजना युवन्तम् वाजम् मृषसुष्ममुत्तममानो रजिमृगवस्तक्षतावजाः इह प्रजामिह न राणा इह श्रवो भीरवत्तक्षदानः येन वयम् चिरयेमाचन्यान्तम् वाजम् चित्रमे भवो ददानः उपनो वाजा अध्वरभुक्षादेव जातपतिभिर्देव जानैः यता यथा यज्ञम् मनुषो विक्ष्वा आसुदजिज्वेरम्बासुदिनेष्वन्ना देवो हृदे मनसे संतु यज्ञायुष्टासो अद्य हृदयन्निरोगुः प्रवः सुदासो हरयन्तपूर्णाः क्रत्वे दक्षाज हृषयन्तपीताः यम् देवहीतम् यथा वस्तोमो बाजारभुक्षणो देवाः जुह्वेमनुष्वदुपरासु भिक्षु जुष्मे स चा बृहद् नीवेषु सोमम् प्रियो अश्वासुद्रथायिभूतायस्य प्रावाजिनः सुनिष्काः इन्द्रस्य सूनसवसो न पातो नो वश्चेत्यग्रियम् वदाय ऋभुवृभुक्षणो रयिम् वाजे वाजिन्तमङ्गिरम् इन्द्रः स्वम् हवामहे सदासा मम श्विनम् सेदृभोजमवथ यूयमिन्द्रश्च मत्यम् सधीभिरस्तु सनीता मेदसा दासो अर्वता विदुवाचारुभुक्षणः पतश्चेत न जष्टे अस्मभ्यम् सूदयस्तुता विश्वाहासा हस्तरीषणिर्षणिभ्यः पुरुषस्तमघत्राजे उतोम् दात्रा सन्धिपूर्भाजापूर्भ्यस्तृसदस्यम् निदोषे दासाम् धनन्दस्यभ्यो अभिभूतिमुग्राम् उतपादिनम् पुरुनिश्चिद्धनन्दधिग्रामो दुर्विश्वकृष्टिम् सेनम् प्रोषितप्सु मासुम् सत्कृत्य मर्यो नृपतिनि न शूरम् यम् देवनुः प्रपते भद्रवन्तम् विश्वः भिर्गध्यन्तम् मे धयम् न शूरम् रथतुम् वाचनिभ्रजन्तम् यस्मा रुन्धानो ग्या समत्सु स नूतरश्चरतिगोषु गच्छन्मे आविर्विजीगो विदथा निजिगतिरो रतिम्बर्याप आयोः पुनस्मैरम्बस्रमचिन्नताजुमनुक्रोधन्लिक्षितजोभरेषु नीता जमानञ्जसूरिन्नस्येनूतम् उत स्वा प्रथमः स ऋष्यन्निवेदिश्रेणिभीरधानाम् स्वरजम् गृह्वानो जन्यो न सुग्णम् वेदीहत्किरणम् ददस्वानि मुदस्य वाजी सौर्यर्वाशुश्रूषमाणस्तन्वासुमर्ये तुरम् यदेषु तुरजम् ऋजव्योधिब्रमो कीरते वृञ्जन् मुदस्मास्य सञ्जतो रीपद्योगायतो अभीजो भयन्ते यदा सहस्रामभिषीमयो धी धुर्वत्त्वस्मा भवति भीमरिञ्जन् स्मास्य वनयन्ति जनाः ज्योतिम् कृष्टिप्र अभिभूतिमासो उतैरावस्वीभिनन्तः परादधिक्रा सरत्सहस्रैः आदधिक्राश्रवसा पञ्च कृष्टीः सूर्यरिव ज्योतिषास्तदान सहस्रशास्रदशाज्यर्वाणक्ंसि आसुन्दक्रान्तमनुष्ठवामदिवस्पृथिव्या बुदचकिराम उच्यन्तीर्मा मृषदः सूदयन्त निश्वानि दुरितानि पर्षन् महस्यकर्मर्वकृतप्रादाधिक्राम्नः पुरुवारस्य विष्णाः म् पूर्भ्यो दीदिमाम् सन्नाग्निम् ददसन्मित्रावरुणातदूरिम् यो अश्वस्य दधिक्राम्नो अग्राजी समिद्धे अग्नावृषसौ योष्टौ नागसन्तमधिकृनो दशमित्रेण वरुणेन ना ना सजोषाः क्राम्णा यिषपूर्जो महोजतमन्मयि मरुताम् नाम भद्रम् नस्तयवरुणम् विद्वग्निम् भवामहीन्द्रम् वज्राहुम् इन्द्रमिवेदुभये विह्वयन्द्रमुदीराणायज्ञमोपप्रयन्ताः क्रामुसूदन्याय ददतुर्मित्रावरुणा नोऽश्वम् अकारिणम् जिष्णोरश्वस्य बालिनाः स्वालिन् मामग्नेरुष सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः सत्त्वाभरिषोकविषोदो मन्यसच्छादिष वृतस्तु रजते द्रवोद्रवरः परङ्गरोदाधिक्रामेशमो जम् स्वर्जनत् उतस्मास्य द्रवदस्तुरन्यतः पर्णन्न वेरणोपादिप्रगर्धिनः श्येनस्येवद्रजातोऽङ्गम्बरैदधिक्राम्नः सो जादरित्राः उतस्य वाजीक्षिपणिन्दूरन्य ग्रीवायाम् बद्धो अभिकक्ष आसनि क्रतुम् दधिक्रा अनुसन्तवे त्वत्पथा मङ्गांस्यन्वापनीफलत् हंसत्सू िषद्वसूरन्तरिक्षसद्धोता वेतिषदति चिर्दुलो न सत् निषद्वारसर्जसद्यो गोचारिजातम् इन्द्राको वाम् वरुणा सुम्नमापस्तोमो हरुष्माङ्गमृतो न होता यो वाम् हृदि करो मास्मदुक्तः पस्पर्षदिन्द्रावरुणा नमस्वा इन्द्राहयो वरुणा चक्र आपी देवो मत्तः सख्यायप्रजस्वा सहन्दिशेषु शत्रो नवोभिर्वा महद्भिः स प्रसङ्गे इन्द्रागरत्रम् वरुणाधेष्ठेच्छागृभ्यः समानेभ्यः सा यदि सखाया सख्यागतो मयि सुतेभिः स्वप्रजसा मादलीते इन्द्राजुवम् वरुणादिभ्यमस्मिन्नो जिष्टमुग्राणि वा जिष्टम् वज्रम् ेवो बृगतदभीतिस्तस्मिन्निमासामभिभूत्यो इन्द्रां वरुणा भूतमस्या हि प्रेतारा वृषभे वा धेनोः सानो दृही यजवासेव गत्यी सहस्रधारापया सा मयि गौः लोके हितेतनाय उर्वरा सुसूषी इन्द्रा नो अत्र वरुणा स्या कामवोधस्मापरीतज्ञायाम् युवामिध्यभास पूर्व्याय परिप्रभूति गविषस्वापि नीमहे सख्याय प्रियायसो रामम् हिष्ठापितरेव शम्भु ीराजन्द्रजग् श्रीनगाभुवसोमस्थुरिन्द्रम् गिरो वरुणम् इमायन्द्रम् वरुणम् मे मनीषा लग्मन् भद्रवीणमिच्छमाणा उपे मस्थुर्ज्योष्टारिवस्वो रघ्वीरिवस्रवसोभिक्षमाणा अश्वस्यत्मनारथ्यस्य पुष्टेर्नित्यस्य राजः पदा यस्याः राचक्रारावूतनव्यभिरस्मक्रारायो जीतः स चन्द्राम् आनो बृहन्ता बृहतीभिरूदीन्द्रयातम्बरुणवाज सातौ यद्यज्य मनः प्रदानाथ प्रक्रीडान्तस्य वां श्यामस नितार आदेः राष्ट्राम् क्षत्रियस्य विश्वायोर्विश्वे अमृताधिधानः कथम् सजम् देवरुणस्य देवा राजामिकृष्टे रूपमस्य भवे अगम् राजावरुणो मह्यन्तान्यसूर्याणि प्रसमाधारयन्त कृतम् सजन्ते वरुणस्य देवा राजाकृष्टे रूपमस्य वग्रेः अहमिन्द्रोपरुणस्तेमहिभीरे चे पविश्वाभवनानि विद्वान्समैरजम् रोदसीधारयन् च अहमवोन्वपुक्षमानाधारयन्ति मंसदा नृतस्य पुत्रो अधीते रदा भूत त्रिधातु पृथगद्विभूम मा नस्वस्वाजगम् तो माम् रदा समरणे हवन्ते कृणो न्यायम् मघवाहवेन्द्रैमभिभूत्योजाः अहन्ता विश्वा जगरम् नगरम् मादेव्याम् सोः वरते अप्रादीनम् जन्मासो मासो मम दुःखो भेजसीमपारे विदुष्टे विश्वाभुवनानि तस्य प्रभ्रवी शिवरूनायवेधा घण्वा त्वम् वृताङ्गारिणा इन्द्रसिन्धून् अस्माकमत्रापितरस्तासान् सप्तर्षयो दौर्ग हे बध्यमाने त आजन्वत्र शदस्य मस्या इन्द्रन्नवृत्रतुरामर्धदेवम् पुरुकृत्सानिहि वामदा सद्धव्येभिरिन्द्रावर्णानमोभि धेनुमिन्द्रावरुणायुमन्नो विश्वाहा सत्तमनपस्फुरन्तीम् कतुस्रवत्कतमो यज्ञियानाम् मन्दारु देवत्कतमो जुषाते कस् देवाम् देवी ममृत्प्रेक्षाम् श्रुतिश्रेषाम सुष्टुंसो हव्याम् कोम्रेलादिकतम आगमिष्टो देवानामुखतमः सम्भाविष्टः प्रथम् कमा भद्रपदस्वमासुञ्जम् सूर्यस्य लिहिता वृणीता मक्षो हिष्मागच्छोनिन्द्रो न शक्तिम् परीतज्ञायाम् इमाजाता दिव्यासूपन्नाकया सचीनाम् भवतः सिष्ठा मादिकयानाश्विनागमथो हूयमाना को वाम् महस्यद्य च सोऽगरपुरुष्यतम् माध्वीरस्रानभूते उरुहाम् रथः परि रक्ष त्यामा यत्स मुद्रादभिवक्तदेवा मध्वामाध्वीमधूवाम् मृषायन्यत्सीं वाम् वृक्षो धुरजम् न भक्वा सिन्धुर्हवाम् रजया सिंहस्वाम् धृणामयो नृषा सपरिग्मन् तदुषवामचिरम् चेति यानम् येन पथि भवतः सूर्यायाः इहे ृक्षेते यमस्मे सुर्वा जलद् वृक्षिलम् जरितारम् जुमम् हस्र कामो नासत्याम्बाम् रथम् भजमद्याहुवेमपृथश्रयवश्विनासङ्गलिङ्गो यः सूर्याम् महादिबन्धुराजुर्विर्वा शुम्भुरुतमम् वसूयुम् युवाम् श्रियामस्विना देवताम् दिवो न वातामनधः सजीभिः युवोर्वपुरभिवृक्षः सिजम् देवहम् जियकगुहासोरथे वा को वा मद्याकारते रातहं यभूतये वा सुपेरायवार्गैः कृतस्य वा मनुषे पूर्व्या जनमो ये मानो अश्वि वा वर्तते हिरण्यजेन पुरुभूरथेनेमम् यज्ञम् ना सत्योपाजातम् इवासयिन्मधूनः सोम्यस्य तथ सौरत्रम् विधते जनाय आनो जातं दिवो अच्छा पृथिव्या हिरण्यजेन सुवृतारथेन मा वा निजमन्दे वयम् दश्रं यद्धेनाभिः पूर्व्या वा नूनो दयम् पूर्वीरम् मृगन्तम् दस्रामि मा धामुभयेक्ष्वस्मे न रो यद्वामश्विनास्तो ृक्षे सेजमस्मै सोमसर्वा ज्ञानम् कामो नासृत्या दिवो अस्य सि वृक्षासो अस्मिन् विधुना अधितृजो दृजिस्तुरीजो मधु नो विरप्सते द्वाम् रक्षासो मधुमन्तली रथे रथाश्वास पुषसो म्यूष्युषु अपोर्नुमन्तस्तमापरीवृतम् स्वा अन्नशुक्रन् तन्वन्तारजा मध्वपितम् मधुरेवी रासवीरुतम् प्रियम् मधुमेयुञ्जाम् आवर्तलिम् मधूनाजिन्वधस्पतोधे मधूमन्तमश्विना हंसासोजे वाम् मधूमन्तो अश्रुधो हिरण्यवर्णाभुवाः उदप्रतो मन्दिनो मन्दिनिःसृसोमधो न वक्षः सव नानि गच्छतः न्तो अग्नयुस्राचन्दे प्रदिवस्तो रस्तिना यन्न्यक्तहस्तरनिर्मितक्षणसोमम् सुरवधूमन्तमद्रीभिः आगे निपासो अहभिर्दविद्वदस्वा अर्णशुक्रम् धन्वन्तादजाः दूरस्ति ूरस्थितस्वान्य जानयीयते विस्वाङ्मनुधयाचेतधस्वतः रवामोचमश्विनाधियन्धारधस्वस्वो अनरोजोऽस्ति येना सद्यः परिदजांसि जातो हविष्मन्तम् तरणिम् भोजमच्छ अग्रम् विवामधूनाम् सुतम् वा जोदिविष्टिषु पाहसि शेनानो अभिष्टेभ्यम् नियत्वािः वायो स्वस्य द्रम्पतम् आवाम् सहस्रम्भरजगिन्द्रवायु अभिप्रयाः भवन्तु सोमपीतये रथम् हिरञ्जबन्धुरमिन्द्रवायुस्वध्वरम् आयुश्चातोदिविस्पृशम् पृथुपाजा सा दा स्वाम् सौवागच्छतम् इन्द्रवायु इहागातम् इन्द्रवायु अयम् सुतस्तम् देवेभिः सजोषसा विभातम् दासुषोऽगृहे इह प्रजानामस्तु वामिन्द्रवायो विमोचनम् इह पाम् सोमापीचरे वायो शुक्रो आयामिष्टिषु आयाहितो स्वा भूते इन्द्रस्य वायवेषाम् सोमानाम् प्रीतिमर्हतः युवायीन्द्रीन्द्रबोनिन्द्रमा बोनसध्य वायविन्द्रश्च सुष्पिना सरसं सपसस्पती नियुत्वम् दानभूतया यातम् सोमापीतये या वा नियुतो धासुषे नरा अस्मे राजज्ञपा हसेन्द्रवायुनियुच्छतमम् विहिहोत्रा अपीथा विपो नरायो अर्यः वाजपा चन्द्रे न सुतस्या पीतये स्ति नियित्वाजपचन्द्रे नरथेन याहि सुतस्य पीतले अनु कृष्णे वसुधिते ये माते विश्वपे स वाजप चन्द्रे नरथेन याहि सुतस्य पीतले महम् कृत्वा मनोयुजो युक्तासो न पतिर्नव वायवा चन्द्रे नरसे न जाहि सुतस्य पीतये वायोशतम् हरीणा विव स्वपोष्याणा उदमा रथाया उपाचसा इदम् वा भाष्ये हविः प्रियमिन्द्रा सस्यते यम् वाम् परीषिच्यते सोमा इन्द्रा बृहस्पती चारुर्मदाय पीतले आन इन्द्रा बृहस्पतीहृन्द्रस्य गच्छतम् सोमपा सोमापीतले अस्मे इन्द्रा बृहस्पतिरिन्धत्तम् स दग्नम् अश्वावन्तम् सहस्रृणम् इन्द्रा बृहस्पतिभयम् सुते घीर्भिर्हवामहे अस्य सोमस्य पीतये सोमामिन्द्रा बृहस्पतीर्गतम् धासुषो गृहे मातये धान्ततो गम्भः सा विज्ञोहन्ताम् बृहस्पतिस्त्रिषधस्तो रवेण षज्योति ज्याः पुरोभिप्रादधे मन्द्रजिह्वम् सुनेत यः सुप्रकेतम् मदम् तो बृहस्पते अभियेनस्तदस्रे वृषन्तम् शिवप्रमारब्धपूर्वम् बृहस्पते रक्षता तस्य जोनिम् बृहस्पतेजापरमापरापददातऋतस्पृशो निषे भ्यम् खारा बता अद्रिदुग्धातिप्रथमम् राजमानो महो ज्योतिरः परमे व्यो मन् सप्तास्य वितो रवेण वि सप्तरस्मिरथमस्तमांसि सृष्टु भासर्क् गणेन रवेण गृहस्पतिरुसृजा हव्यसोदः कलिक्लद्वाव सतीरुदाचत् देवापित्रे विश्वदेवानकृष्णे जग्नेर्वीधेवनमसा हृद्भिः बृहस्पते सुप्रदा वीरम् तो मयम् स्यामपतयोरजीराम् स यदि राजा विश्वा सुष्मे न तस्था बृहस्पतिम् यः सुभृतम् विहति वन्दो यदि वन्दते पूर्वभागम् स यक्षे सुधि विश्वदानी तस्मैपि स स्वयमेवा राम तेजस्मिन् ब्रह्म राजा निपूर्भजेति अपप्रातीतो जयति सन्धरा यप्रतीशनयाञ्जुतया शरञ्न्या अवश्यपेजोपरी वक्लोति ब्रह्मणे राजातमावन्ति देवाः इन्द्रश्च सोमम् विगतम् बृहस्पतेऽस्मिन् यज्ञेवन्दसानामृण्सु वाम् विशन्विम् देवस्वा भुभोस्मेरयम् सर्वम् नियच्छरम् बृहस्पत इन्द्रवर्धरम् न चासावाम् सुमतिर्भू त्वस्मे अमिष्टम् धियोजिकृतम् पुरम् धीर्यो वनुषामरातीः भद्रन्नो अपि वातयवनाः ओ पुरस्ताद् ज्योतिष्कमसो मिना पुरस्तात् नो नो दु इतरो विभाजे असूरुचित्रा पुरस्तान्विता जीभस्वर बोधरेषु ्छन्दीरभ्राञ्चुचरः पापगाः पृच्छन्दीरीलयन्तभोजान् बहूनिः अचित्रे अन्नः प्रणयः सन्तोबुध्यमानः समसोऽपि मध्ये देवी सदजो नमो बायामो भूयादूढसोमो अद्य येन नवग् अङ्गीरेण सग्ने सप्तास्येरेवतीरेव दूढा यूयम् हि देवीवृतयुग्भिरस्वैः परिप्रजा स भुवानानि सद्यः ङ्गणम् दिवाच्चरथाय जीवम् कतमापुराणीयया विधाना विधरुभू शुभञ्छभ्राचनम् जय गिजायन्दे सदृशीर्या भद्रा पुरुषतः पुरासूरभिष्टिज्यम् नादृतजातसत्याः यास्थानस्य समानबुद्धये स्तुम्रवीणम् सद्याप काला च नन्दिसमना पुरस्तात् समानतः स मनापप्रधानाः विदस्य देवी सोऽबुधानागवान् न सर्गापुषसो जनन्ते एव स मनसा मानीलीतवना मन कुशरन्ति भूहम् तीरध्वमसीतमृषद्भिः शुक्रा तरोभिश्चर्चाराः दी बोधितरोऽपि भाति प्रजावन्तम् यच्छता स्म सुदेवी श्योनादावः प्रतिबुध्यमानाः सुदीर्घस्य पदा यस्याम तद्वो दिवो विषित यज्ञमे धत्ता पृथिवी देवी प्रदिश्यासूनरीजनी युच्छन्ती परिश्वसुः दिवो अश्वेप चित्रारूषि माता गवारि सखा भूदश्विनो रुषाः उतसखास्यश्विनो ऋतमाता गवावसितौषोमस्वयीषे याभयद्वेषसन्दादिकित्तिसूदावरि प्रति स्तोमी रभुस्महि प्रतिभद्रा द्रक्ष जगभाम् सद्गानश्मयाः पोषाप्रापुरुत्रयाः आपुर्भज्योतिषातमाः पुरुषो अनुस्वधा मा आद्यान्तरोषिरस्मिरान्तरिक्षमुयम् कुशः शुक्रेण सोदिषाः षद्देवस्य स विकर्वार्यम् महद्विमहे असूरस्य प्रचेरसः छद्विर्येरदासुरे यच्छदिद्मनातन्नो महाम् कुदायाम् देवो अत्युभिः दिवो धर्ता पुनस्य प्रजापतिः पिशङ्गम् द्राविम् प्रतिमुन्ध्रते कविः विचक्षणः प्रदयन्नावृणन्नुर्वजीनरत्सविदासुम् न मुख्यम् आप्रालदांसु दिव्यानि पार्थि वा श्लोकम् देवः क्रेणुते स्वायधर्माने प्रवाहु अस्रात्सवितासवीमनिवेशयन् प्रसुवन्नक्तुभ्यजगत् अदाभ्यो भुवनानि प्रजाकसद्व्रतानि देवः स पिताभिरक्षते प्राग्बाहूभुवनस्य प्रजाभ्यो धृतम् रातो महो अध्वस्य राजति निरन्तरिक्षम् स पिताहि त्वरा त्रीलंसि परिभूस्त्रीणि रोचना तिस्रो दिवः पृथिवीश्चिश्रयन् वद्रयर्वृतैरविनो रक्षमना विगत्सम् न प्रसभीता निवेश नो जगदस्थातुर्भयश्च यो वशी नो देवस्य विदासन् यच्छत्वस्मेक्षया यत्रिवरूपम् आगन् देवऋतुभिर्वसु प्रजामिषम् स राह क्षाभिरहभिश्च जिन्वतु प्रजावन्तम् रजिमस्मे समिन्वतु अभू देवस्य पितावन्त्यो इदानीमह्न उपवाच्योतृभिः वियोरत्नाभजिवानरेभ्य श्रेष्ठम् अत्र द्रवीणम् यथा दधत् देवेभ्यो हि प्रथमम् जज्ञयेभ्यो बृहत्त्वम् सुरसि भागमुत्तमम् आदिदामानम् सवितर्व्यो नृचीनादिर्वितामानुषेभ्यः अचित्तीयच्च ग्रमादैव्यदीनैर्दक्षैः प्रभूतिपूरुषत्वता देवेषु च समिधर्मानुषेषु च धर्म अत्रा सुमताद्यथा विश्वम् भुवनम् धारयिष्यति यत्पृथिव्यापरिपन्नाश्वम् गुरिर्वश्वम् दिवः सुपरि सत्यमस्य कदलि इन्द्रज्येष्ठान् जगद्भ्यः पर्वतेभ्यः क्षयाङ्गेभ्यः सुवसि पस्या वद यथा यथा बलजम् तो विजे विरजेवैवतस्थः स पितः समाजते ए ते त्रिरहन् स पितः समासो दिवे, दिवे इन्द्राद्या वा पृथिवी सिन्धुरद्भ्यादितेर्नो अदितिः शर्माजंस को बस्त्रातापसवः को बरूताद्या वा भूमि अदितेत्रासीतान्नः स यी यतो वर्णेत्रवत्ता न को वोध्वरे वरीबोधादिदेवाः जेधामारिपूर्याण्यर्चान्वियदृच्छान्वियो अमूराः विधातारो विदेतधुरजस्रा ऋतयोरुचन्दस्मा प्रपस्याम् सिन्धुमर्कैः स्वस्ति मे रे सख्याय देवीम् निपात उभेयथा नो अहनिपातमुषासा रक्तामलब्धे नेजिवन्था विषस्पतिः सुमितम् गातुमग्निः इन्द्राविष्णो नृगृगस्तवा नासन्मा नोजन्तममद्वरूथम् आपर्वतस्य मरुतामवांसि देवस्य प्रातुरवृभस्य मित्रो त्मनिर्जन्यालो मित्रोदुरुष्येत् दूरोदशी अहीना बुद्ध्ये नस्तु वेदरेभिरुष्टैः समुद्रन्न सञ्चरणे सनिष्यवो धर्मस्वरसो नद्यो अपवृन्न ो देव्ये जलनिभासु देवस्त्रादामप्रयुच्छन् न हि मित्रस्य मरुरस्य धासिमरुहावसि प्रविशंसाग्नेः अग्निरीशेव सव्यस्याग्निर्महसौभग्यस्य तान्यस्मभ्यम् रासते ुरो मघोन्यसौदेवार्यापुरु अस्मभ्यम् वाजिनी मयि तत्सु नः सविता भगोवलो नो मित्रो अर्यमा इन्द्रो नो राधसागमत् महीद्यावापृथिवीहज्येष्ठे रुचा भवताम् सुयद्भिकैः <Sess> यत्सेम्बरिष्ठे देवीक्षापप्रधानेभिरेवैः देवी देवेभिर्यजते वृक्षमाणे अजुवा देवपुत्रे यज्ञस्य नेत्रेभिरक्षैः सयत्स पाभुवानेष्व स यिमे ज्यावापृथिवी जा जान जा पुरुगभी सुमे अभंसे धीरस्वचासमे यत् नूरोदी मृगद्भिर्नोपरोचैः पत्नीवद्भिरुषयम् चे सजोषाः उरुची विश्वे यजते निपातम् धियास्याः वरथ्यस दासाः क वाम् महिद्यवी अभ्युपस्तुतिम् भरामहे सुजी उपप्रसस्तये पुने तन्वामितस्वेन दक्षेण राजतः गूह्यादे सनाधृतम् मही वित्रस्य सार्थतस्तरम् दीभिप्रतीहृतम् परियज्ञम् निषे दतुः क्षेत्रस्य पतीनाभम् हिते ने भजयामसि ृळादीर्षे क्षेत्रस्य पते मधुमन्दभूर्मिः अस्मासु धृक्ष्व मधुस्रुतम् धृतमीपसुपूतमृतस्य नक्पतयो मृलयन्तु मधुमधीरोषधीर्जापो मधुमन्नो भव त्वन्तरिक्षम् क्षेत्रस्य धर्मधूमानो अस्परिष्यन्तो अन्वेन चलेन सुलम्बा सुनम् नरः सुनङ्ग्रेश तु नाङ्गम् सुनम्बरत्रा बध्यन्ताम् सुनमष्टामुय सुनासीराम् वायाः एमे मामुपासिञ्चतम् अर्वाची सुभगे भवसि देवङ्गा महेत्वा यथा नः सुभगासरसि यथा नः सुफला सहसि इन्द्रीताम् निगृह्णातु ताम् पूषाणम् यच्छतु सा न पयस्वती दुहामुत्तरामुत्तराम् समा सुरम् नत्वा नाविषन्तु भूमिम् सुरङ्गीना च अभियन्तु बाहैः सुरम् पञ्चन्यो मधुनापयोभिस्तुना दीरा सुनमस्मासु धत्ताम् ओ